निराबाधास्त्वैहते मया राक्षसपांसना वनमेतच्चरिष्यन्ति पुरुषावनचारिणः हिडिंब उच गर्जि वृथा किं ते कथि चुषा कृवकम सर्व कथ मचिम करता बलि मनसेसेय्याम सपराक्रम ज्ञा से मयात्मानं बलाधिकं। न तावदेतान्हिंसिष्ये स्वपन्त्वे ते यथा सुखम् एष त्वामेव दुर्बुद्धे निहन्यद्या प्रियं वदं पीत्वा तवासृग्गात्रेभ्यः ततः पश्चादिमानपि हनिष्यामि इमां विप्रियकारिणीम् वैशम्पायन उवाच एवमुक्त्वा ततो बाहुं प्रग्रह्य प्रगृह्यपुरुषादकः अभ्यद्रवतसंक्रुद्धो भीमसेनमरिन्दमं तस्याभिद्रवतस्तूर्णं भीमो भीमपराक्रमः वेगेन प्रहितं बाहुं निजग्राहः सन्निवा निग्रह्यतं तं भीमो विस्फुरन्तं च तस्माद्देशाद्धनुं श्यष्टौ सिंह क्षुद्रमृगं यथा ततः राक्षसक्रुद्धः पाण्डवेन बलार्दितः भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् पुनर्भीमो बलादेनं विचकर्ष महाबलः माशब्दः सुखसुप्तानां मे भवेदिति अन्योन्यं तौ समासाद्य विचकर्षतु रोजसा हिडिम्बो भीमसेनश्च विक्रमं चक्रतु परम् बभञ्जतुस्तदा वृक्षां लताश्चाकर्षतुस्तदा मत्ता विवच संरब्धौ वारणौ षष्टिहायनौ